नारदपुराणम् पूर्वार्धम् अध्यायम् एय्टि सेवन् सनत्कुमार उवाच अवतारत्रयम् लक्ष्म्या कथितते द्विजोत्तम दुर्गायाश्चाभिधास्यामि सर्वलोकोपकारकान् प्रणवश्रीशिवायुग्मम् वाणि वैरोचनीपदम् वज्राद्यं क्षुधिता सूक्ष्मा मृदा स्वाग्नेन्दुसंयुता प्रदिष्ठाप्य शिवा फट्य स्वाहान्दोत्यष्टिवर्णवान् भैरवोऽस्य मुनिः सम्राट् छन्दो मन्द्रस्य देवता चिन्नमस्तरमा बीजं स्वाहा शक्तिरुदीरिता आं गङ्गाय हृदाख्यादमीं कामीं गङ्गाय शिरस्मृतम् ॐ वज्राय शिखप्रोक्ता ऐं पाशाय तनुच्छदम् औं मौं औं मं कुशाय नेत्रं स्याद्विसर्गो वसुरक्षयुग मायायुग्मं चास्त्रमङ्गं मनवः प्रणवादिका स्वाहान्ताश्चैवमङ्गानि कृत्वा ध्यायेधाम्बिकाम् भानुमण्डलसंस्थानां प्रविकीर्णालकं शिरः चिह्नं स्वकं स्वारमुखं स्वरक्तं प्रबिबद्गलद उपरि स्ताम्रता सप्तरदि मन्मथयोर्निजे दाकिनीवर्णिनि सख्यौ दृष्ट्वा मोदभराकुलाम् ध्यात्वैवं प्रजापेलक्षचतुष्कं तद्दशांशदः पालाशैर्विल्वजैर्वापि जुहुयात्कुसुमयि फलैः आधार आधारशक्तिभ्य परतवाजि पीढ़े जयाख्या विजया पीपरा जिता चाजिता निलासीनी षी दौ्यखोरा मंगला, दिक्षु मध्ये मध्य च संपूज्या नवपीठ प्रदे, वर्णनीये सर्वमृगुत्सदृक्सिद्धिप्रदे डाकिनीये तारो वज्रसभौतिकः गङ्गीश्वो रोचनीयेन्दे भगं देहि नमोऽकः तारादिपीठमन्द्रोऽयं वेदरामाक्षरो मदः समर्प्यासनमेदेन तत्र सम्पूजयेत् शिवां त्रिकोणमध्यषट्कोण पद्मभूपुरमध्यदः बाह्यावरणमारभ्य पूजयेत्प्रतिलोमदः भूपुरे बाह्यभागेषु वज्रादीनि प्रपूजयेद् तदन्तसुरराजादीन् पूजयेद्धरिदाम्पदीन् भूपुरस्य चतुर्ध्वार्षुद्वारपालन्यजे दध करालविकरालाख्यावधिकालस्तृतीयकः महाकालचतुर्धस्या दध पद्मेष्टचक्रयः यक लिङ्गायोगिनी च डागिनीभैरवी तथा महाभैरवकेन्द्राक्षी त्वस्य दाङ्गीदसप्तमी संहारिण्यष्टमी चेदि षट्कोणेष्वङ्गमूर्तयः त्रिकोणगाचिन्नमस्ता पार्श्वयोस्तु सखी दागिनी दागिनीवर्णनी संज्ञं तारावाग्भ्यां प्रपूजयेद एवं पूजादिभिसिद्धे मन्त्रे मन्त्री मनोरथान् प्राप्नुयान्निखिलन् सद्यो दुर्लभां तत्प्रसादः श्रीपुष्पैर्लभते लक्ष्मीं तत्फलैश्च समीक्षितम् वाक्सिद्धिमालदि पुष्पैश्चम्पकैर्हवनात् सुखं कृदाकृतं चाग मां संयोजुयात् प्रत्यहं शतं करवीर सुमैश्वधैर्लक्षसंख्यैर्जुहोति यः रोगजालं पराभूय सुखी जीवेच्छदं समाह रक्तौ तत्संख्यया हुत्वा वशयेन्मन्त्रिणो नृपान् फलैर्हुत्वा मुया लक्ष्मीमुदुम्बरपलाशजैः गोमायु मां तामेव कवितां पायसां सा। धन्धुककुसुमैर्भाग्यं कर्मिकारैः समीहितं तिलतण्डुलहोमेन वशयन्निखिलाञ्जनान् नारीरजोभिराकृष्टैर्मृगमांसैः समीहितम् स्तम्भनं माहेश्वैर्मासैः पङ्कजैः सकृतैरपि चिदाग्नौ परभृत्पक्षैर्जुर्हुयादरिमृत्यवे उन्मत्तःकाष्ठदीप्तेऽग्नौ वाय वायसच्छदैः द्यौदेवने नृपद्वारे समरे वैरिसङ्कडे विजयं लभदे मन्त्री ध्यायन्देवीं जपन्मनुं भुक्र्यै मुक्र्यै सिधां ध्याये दुच्चाडे नील रोचिषं रक्तं वश्ये मृदौ धूम्राम स्तंभने कनकप्रभाम् निशिद्यात् बलिं तस्यै सिद्धये मदिरादिना गोपनीयप्रयो गोयप्रोच्यते सर्वसिद्धितः भूदाहे कृष्णपक्षस्य मध्यरात्रे तमोकने स्नात्वा रक्ताम्बरधरो रक्तमाल्यानुलेपनः आनीय पूजये नारीं चिन्न मस्तास्वरूपिणी सुन्दरीं यौवनाक्रान्तां नरपञ्चगा नरपञ्चकगामिनीं सुस्मितामुक्तकबीरीं भूषादानप्रदोषितां विवस्त्रां पूजयित्वयिनामयुधं प्रजपेन्मनुं बलिं दत्वा निशां नीत्वा सम्प्रेष्य धनदोषितां भोजये द्विविधैरन्नैर्ब्राह्यणान् भोजनादिना अनेन विधिना लक्ष्मीं पुत्रान् पौत्रान् धनं यशः नारीं मायुःसुखं धर्ममिष्टं च समवाप्नुयाद तस्यां रात्रौ कार्यं विद्याकामेन मन्त्रिणा मनोरथेषु जान्येषु गच्छे प्रजपन्मनुम् उषस्युद्धाय शय्यायामुपविष्टो जपेत् शदं षण्मासाभ्यन्तरे कवित्वेन जयेत्कविं शिवेन कीलिता चेयं तदुत्कीलनमुच्यते मायां तारपुडां मन्त्री जपेदष्टोत्तरं शदं मन्त्रस्यादौ तथैवान् भवेत्सिद्धिप्रदातु सा उदिदा चिह्नमस्तेयं कलौ शीघ्रमभीष्टदा अवतारान्तरं देव्या वच्मिदे मुनिसतमा ज्ञानामृता रुणाश्वेदा क्रोधिनीं दुः समन्विता शान्तिस्तथा विधा चाभि च वाग्भवं कामराजाख्यं शक्तिबीजाह्वयं तथा त्रिभिर्बीजै पञ्चकूडात्मिका त्रिपुरभैरवी ऋषिश्यादक्षिणामूर्तिश्चन्दः पङ्क्तिरुदीरिदा देवता देशिकैरुक्ता देवी त्रिपुरभैरवी नाभेराचरणं न्यस्य वाग्भवं मन्त्रवित्पुनः हृदयान्नाभिपर्यन्तं कामबीजं प्रविन्यसेद शिरसो हृत्प्रदेशान्तं तार्तीयं विन्यसे तदः आद्यं द्वितीयं करयोस्तार्तीयमुभयं न्यसेद मूलाधारे हृदिन्यस्य भूयो बीजत्रयं प्रमाद न वयोऽन्यात्मकन्यासं कुर्याद् बीजैस्तृभिः पुनैः बालोदिदप्रकारेण मूर्तिन्यासमथा चरेद स्वस्वबीजाधिकं पूर्वं मूर्ध्नीशानमनोभवम् न्यस्येद्वक्त्रे तत्पुरुषं मकरध्वजमात्मविद हृद्यघोरकुमारादिकन्दर्पं तदनन्तरं गुह्यदेश्ये प्रविन्यस्येद्वामदेवादिमन्मथं सद्योजातं कामदेवं पादयोर्विन्यस्येतदूर्ध्वं प्राग् दक्षिणोदीच्य पश्चिमेषु मुखेषु तान् प्रवीण्य सेद्यधापूर्वभृगुर्व्योमाग्निसंस्थितः सद्यादि पञ्चह्रस्वाद्याबीजमेषां प्रकीर्तितम् षड्दीर्घयुक्तेनाद्येन बीजेनाङ्गक्रिया मद पञ्जबाणांस्ततो न्यस्येन्मन्त्रित्रैलोक्यमोहनान् द्रामाद्यां द्राविणीमूर्ध्निं द्रामाद्यां क्षोभिणी पदे क्लीं वश्यीकरणीं वक्त्रे गुह्ये भ्रं बीजपूर्विकाम् आकर्षणीं हृदि पुनः सर्वान्धभृगुसंस्थितां सम्मोहनीं क्रमादेवं बाणन्यासो यमीरिदः बालभ्रूमभ्यवदने खण्डिकाखण्डहृत्सु च नाभ्यधिष्ठानयोः पञ्च ताराद्यासुभगाधिकाः मस्तकविधिनाभेश्च मन्त्रिणा सुभगाभगा सुभगा भगसर्पिण्यतपरा भगमालिन्यनन्तरम् अनङ्गानङ्गकुसुमा भूयश्चानङ्गमे कला अनङ्गमदना सर्वा मदविभ्रममन्धरा प्रधानदेवतावर्णभूषणाद्यैरलङ्कृताः अक्षस्रत्पुस्तकाभिड्यकराम्बुजाः वाक्कामब्रूं स्त्री सरान्दे ताराः पञ्चप्रकीर्तिताः तद कार्याद्भूषणख्यमन्यास मुक्तदिशा मुने एवं न्यस्तशरीरोसौ ध्यायेत्रिपुरभैरवीं सहस्रभानुसङ्काशामरुणक्षौम वासीं शिरोमालामसृग्स्तनीं जपवडीं करैः विद्यामभीतिं जवरं दधदीं त्रिक्षणाननां दीक्षां प्राप्य जपेन्मन्त्रं तत्त्वलक्षं जितेन्द्रियः पुष्पैर्भानुसहस्राणि ज्युहूयाद्ब्रह्मवृक्षजैः त्रिमध्वक्त्रैप्रसूनैर्वा करवीरसमुद्भवैः पद्मं वत्सुदलोपेदं न इच्छादिशक्तिभिर्युक्तं भैरव्यापीठमर्चयेद इच्छाज्ञाना कामदायिनी रतिप्रिया मदानन्दानवमी स्यान्मनोन्मनी वरदाभयधारिण्यसम्प्रोक्ता नवशक्तयः वाग्भवं लोहितो रायै श्रीकण्ठो लोहितो दीर्घवाण्यैपरा पश्चादपरा यौकसौयुधः सदाशिव महाप्येदङेन्दं पद्मासनं नमः महा अनेन मनुना दद्यादासनं श्रीगुरुक्रमं प्राङ्मध्य योऽन्यन्तराले पूजयेत् कल्पयेत्तदः प्रपञ्चभि प्रणवैर्मूर्तिं तस्यामाबाह्य देवतां पूजये दगमोक्तेन विधानेन समाहितः तरा वाचक्रिकमला हसखूं हसौ स्मृताः देव्या हदिमिन्दुसमप्रभं शृणिपाशधरं सौम्यां मदविभ्रम विह्वलां प्रीतिं दक्षिणकोणस्तां तप्तकाञ्चनसन्निभाम् अङ्गुशं प्रणदं दोभ्यां धारयन्तीं समर्चयेद् अग्रे मनोभवां रक्तं रक्तपुष्पाद्यलङ्कृतां येषु धारिणीं सस्मिदाननां अङ्गान्यभ्यर्चयेत् पश्चाद्यथापूर्वं विधानवदीक्ष्वाग्रे जनिजैर्मन्द्रैः पूजयेत् बाणदेवताः अस्ताब्जैर्धृत पुष्पे सुप्रणामामृत सप्रभाः अष्टयो निःष्वष्टशक्ति पूजयेत् सुभगादिकाः मादरो कस्था मादरोभैरवां कथा मदविभ्रमविह्वलाह अष्टपत्रेषु सम्भूज्य यथावत् कुसुमादिभिः लोकपालांस्ततो दिक्षु तेषामस्त्राणि तद्बहिः पूर्वजन्मकृतै पुण्यैनां परदेवतां यो भोजेदुक्तमार्गेण स भवेत् सम्पदां पदं यंसिद्धमनुर्मन्त्री साधयेदिष्टमात्मनः जुहुयातरुणां भोजैरदोश्रयैर्मधुराप्लुतैः लक्षसङ्ख्यं तदर्थं वा प्रत्यहं भोजयेद्विजान् वनिता युवधिरम्या प्रीणये देवताभिया होमान्दे धनधान्याद्यै स्तोषयेद्गुरुमात्मनः एवं कृते जगद्वश्यो रमाया भवनं भवेद् रक्तोत्पलैस्त्रिमध्वक्तैररुणैर्वा हयारिजैः पुष्पैपयोन्नैः सकृतैर्होमाद्विश्वं वशं नयेद् वाक्सिद्धं लपदे मन्त्रि पला शकुसुमैर्हुदैः कर्पूरा गुरुसंयुक्तं गुग्गुलं जुहुयात्सुधीः ज्ञानं दिव्यमवाग्नोदिते नैव स भवेत्कविः क्षीराक्तैरामृदाखण्डैर्होमः हो सर्वापमृत्युजिदूर्वाभीरायुषे होमः क्षीराक्ताभिर् दिनत्रयं गिरिपर्णिभवैपुष्पैर्भ्राह्यान्वशयेधुतैः कखलार्यै पार्थिवान् पुष्पैस्तद्वधूकर्णिकारजैः मल्लिकाकुसुमैर्हुत्वा राजपुत्रान्वशं नयेद कौरण्डकुसुमैर्वंश्यान् वृषलान् पाडलोद्भवैः अनुलोमान् विलोमान्तस्थिदसाध्याह्वयान्विधं मन्त्रमुच्चार्यहूयान्मन्त्री मधुरलोलितैः सर्षपैर्मधुसम्मिश्रैर्वशयेत्पार्थिवान् क्षणाद अनेनैव तत्पत्नी तत्पत्नीस्तत्सुदानपि जादि नर जातिबिल्वभवै पुष्पैर्मधुरत्रयसंयुतैः नरनारीनरपदीन् होमेन वशयेत्क्रमाद मालदिबकुलोद्भूतैः पुष्पैश्चन्दनलोलितैः जिहूयात् कवितां मन्त्री लभदे वत्सरान्तरे मधुरत्र कह्यसंयोक्तै फलैर्बिल्वसमुद्भवैः जुहूयाद्वाशये लोकं श्रियं प्राप्नोति वाञ्छितां साजमन्नं प्रजुहुयाद् भवेदन्नसमृद्धिमान् कस्तूरी कुङ्कुमोपेदं कर्पूरं जुहुयाद्वशी कन्दर्पादधिकं सद्य सौन्दर्यमधिगच्छति राजान् प्रजुहु जान्मं ध्री दधिक्षीरमधुप्लुधान् विजित्यरोगानखिलान् सजीवे शरदां शतं पादद्वयं मलयजं पादं कुङ्गुमकेश्वरं पादं घोरोचनान्दानि त्रीणि पिष्ट्वाहि मां भस्सा विदध्या तिलकम् बाले यान् पश्येद्यैर्विलोक्यदे पश्यास्युस्तस्य ते चिराद कर्पूरकपिचोराणि समभागानि कल्पयेद् चतुर्भुजा जडामां सीतावधिरोचनां मदा कुङ्कुमं समभागं स्यात् दिग्भादं चन्दनं मदम् अगुरुर्नवभागं स्यादिति भागक्रमेणज भाग हिमाद्भिकन्यया पिष्टमेतत् सर्वं सुसाधितम् आदाय तिलकम्भाले कुर्याद् भूमिपदीन्नरान् वनिदा मद गर्वाढ्या मदोन्मतान् मदङ्गजान् सिंहव्याक्रान् महासर्पान् भूतवेदाल राक्षसान् दर्शनादेव वशये तिलकं धारयेन्नरः इत्येषा भैरवी प्रोक्ता ह्यवतारान्तरं शृणु वाङ्मया कमलाधारो नमो दे भगवत्यधा श्रीमादङ्गेश्वरि वदे सर्वजनमनोहरि सर्वादिसुखराज्यन्ते सर्वादिसुखरञ्जिनी सर्वराजवशं पश्चात्करिः सर्वपदं वदेत स्त्रीपुरुषवशं सृष्टिविद्याक्रोधिनिकान्विता सर्वं दृष्टमृगवशंकरि सर्वपदं तदः सर्वसत्त्ववशं करि सर्वलोकं ततः परम् अमुकं मे वशं पश्चादानयानलसुन्दरी अष्टाशीत्यक्षरो मन्त्रो मुन्याद्या भैरवी गदासान्मन्त्रितनौकुल्याद् वक्ष्य माणान्यथाक्रमम् ललाडभू शिरो ललाडभूमध्ये तालो कण्ठगलोरसि अनाहदे भुजद्वन्द्वे जठरे नाभिमण्डले स्वाधिष्ठाने गुप्तदेशे पादयोर्दक्षवामयोः मूलाधारे गुदेन्यसे न्यसेत् पदान्यष्टादशक्रमाद गुण गुणैकद्विचतुषड्भिर्वसुपर्वनवाष्ठभिः नन्दपत्यष्टवेदाग्निचन्द्र युग्मगुणाक्षिभिः यदुकृप्तिरियं प्रोक्ता मन्द्रवर्णैर्यथाक्रमम् रताद्यमूलहृदयभ्रूमध्येषु विचक्षणः वा शक्तिलक्ष्मीबीजाद्या मादङ्ग्यन्ताप्रवीण्यसेदर् पादेशु विधिनान्यसेद हृल्लेखां गगनाम् रक्ताम् भूयो मन्त्री परालिकां मखोचुष्मान् स्वनामादिवर्णबीजपुरसरः मादङ्क्यदा षडङ्गानि तदकुर्वेदसाधकः वर्णैश्चतुर्विंशतिभिर्हृत्रयो दशभिः शिरः शिखाष्टादशभि प्रोक्ता वर्म तावद्भिरक्षरैः स्यात्तयो दशभिर्नेत्रं द्वाभ्यामस्त्रं प्रकीर्तितम् बाणन्यासं तदकुर्याद्भैरवी प्रोक्तवत्मना मादङ्गिपदयोश्चान्यं मन्मधान्वदनांशयोः पार्श्वकट्योर्नाभिदेशे करिपार्श्वांशके पुनः बीजत्रयाधिपामं ध्रीमन्मदं मकरध्वजं मदनं पुष्पधन्वानं पञ्चमं कुसुमायुधम् षष्ठं कन्दर्पनामानं मनो भवहरदि प्रियौ मादङ्ग्यं तास्तदो न्यस्य स्थानेष्वेदेषु मन्त्रविद कुसुमामे कला चैव मदना मदनाधुरा मदनावेगासम्भवा ज भुवनपालेन्दुरेखिका अनङ्गपदपूर्वाश्च मादङ्ग्यन्थासमीलिताः विन्यस्तव्यास्तदो मूले धिष्ठाने मणिपूरके हृत्कण्ठास्ये भ्रुवोर्मध्ये मस्तके चापि मन्त्रिणा अद्य आद्ये लक्ष्मीसरस्वत्यौरधिप्रीतिश्च कृत्तिका शान्तिपुष्टिपुनस्तुष्टिमार्तगम्पद शेखरामूलमन्त्रं पृध न्यस्य निजमूर्धनिमन्त्रविद आधारदेशेऽधिष्ठाने नाभौ पश्चादनासदे खण्डदेशे भ्रुवोर्मध्ये बिन्दौ भूयकलापदोः निरोधिकायामर्थेन्दु नादे नादान्तयो पुनः उन्नतां सेशुवक्त्रे च ध्रुवं मण्डलके शिवे मात्यज्ञं ताः प्रविन्यस्येद्वा मां ज्येष्ठमदः परं रौद्रीं प्रशान्तं पुनर्माहेश्वरीमद क्रियाशक्तिं सुलक्ष्मीं च सृष्टिं संज्ञां च मोहिनीं प्रमदाश्वासिनीं विद्युल्लतां चिच्छक्तिमप्यध ततश्च सुन्दरीं निन्दाम् नन्दबुद्धिमिमाक्रमाद शिरोभाल हृदा धारेष्वेदा बीजत्रयाधिकाः मातङ्ग्याद्याप्रीण्यस्यद्यथावद्देशिकोत्तमः मादङ्गि महदाद्यां दा महालक्ष्मीपदाधिकां महदा महा। सिद्धलक्ष्मीपदाद्यां च मूलमाधारमण्डलं न्यसेत् तेनैव गुर्वेदव्यापकं देशिकोत्तमः एवं न्यस्तशरीरोसौ चिन्तयेन्मन्द्रदेवतां श्यामां शुकोक्तिं शृण्वन्तीं न्यस्तैकाङ्क्रि शिरोलुहां शशिकण्ठधरां वीणां बाधयन्तीं मधून्मदां रक्तां शुकां च कहलारमलाशोभितचूलिकाम् शङ्खपत्रां तु मादङ्गीम् चित्रकोद्भासि मस्तकाम् अयुधम् प्रचपेन्मन्त्रं तद्ध शांशम् मधुकजैः पुष्पैस्त्रिमाधुरोपेदैर्जुहुयान्मन्त्रसिद्धये त्रिकोणकर्णिकम् पद्माष्टपत्रम् प्रकल्पयेद् अष्ट पत्रावृतं भाग्ये वृतं षोडशभिर्दलैः चतुरश्रीकृतं भाग्ये कान्द्यादृष्टिमनोहरम् एतस्मिन् पूजयत्पीठे नवशक्तिक्रमादिमाः विभूतिपूर्वापूर्वोक्ता मादङ्गिपदपश्चिमाः सर्वान्ते शक्तिकमलासनाय नमैत्यथ वाक् सत्यलक्ष्मीबीजाद्य उक्तपीडार्चने मनुः मूलेन मूर्तिं सङ्कल्प्य तस्यामावाह्य देवताम् अर्चयेद्विधिनानेन वक्ष्यमाणेन मन्त्रविद रत्याद्यास्त्रिषु कोणेषु पूजयेत् पूर्ववत्सुभिः ऋ पञ्च पूज्या मध्य दिक्षुजमन्त्रिणा पाशाङ्कुशा भयाभीष्टधारिण्यो भूतस्सप्रभाः अङ्गानि पूजयत् पश्चाद्यथा पूर्वं विधानविधबाणान् अभ्यर्चयत् दिक्षु पञ्चमं पुरदो यजेद दलमध्ये दशं पूज्या अनङ्गकुसुमादिकाः पाशाङ्कुशा भयाभीष्टधारिण्यो ऋणविग्रहाः पत्राग्रेषु पुनः पूज्य लक्ष्म्याज्ञा वल्लभीकराः बहिरष्टदलेष्वर्च्या मन्मदाज्ञ मदोद्धदाः नपराङ्गनिषङ्गाद्या पुष्पास्त्रेषु धनुर्धराः पत्रस्तमादरपूज्या ब्राह्याद्या प्रोक्तलक्षणाः तदग्रेष्वर्चयेद्विद्वान् सीताङ्गादिभैरवन् पुनः षोडशपत्रेषु पूज्य षोडशशक्तयः वामाद्यकलवीणाभिर्गायन्त्यस्याम विग्रहाः चतुरसे चतुर्दिक्षु चतस्र पूजयेत्पुनः मादङ्ग्याद्य मदोन्मत्ता मा वीणोल्लसितपाणयः आग्नेयकोणे विघ्नेशं दुर्गं नैशाचरे यजेध वायव्ये वडुगन् पश्चादीशाने क्षेत्रपं यजेध लोकपालं बहिपूज्य वज्राध्यैरायुधैः सः मन्त्रेऽस्मिन् सन्धिते मन्त्रि साधये दिष्टमात्मनः मल्लिकाजाधिपुनागैर्होमाद्भाग्यालयो भवेद पल्लौर्बिल्य समुद्भूतैस्तत्पत्रैर्वा हुदाद्भवेद राजपुत्रस्य राज्याप्तिपङ्कजै श्रियमाप्नुयाद उत्पलैर्वशयेद्विश्वं क्षारैर्मध्वाश्रुधैः श्रियम् वं जुलस्य समिद्भोमो वृष्टिं वितनुदे चिरदक्षिराक्तैरमृताखण्डैर्हो मान्नाशयदिज्वरं दूर्वाभिरायुराप्नोति तण्डुलैर्धनवान् भवेद कदम्बैर्वश्यमाप्नोति सर्वं त्रिमधुरप्लुदं नं द्यावर्तभवैपुष्पैर्होमो वाक्सिद्धिदायकैः निम्बप्रसूनैर्जिहुया दीप्सिदश्रीसमृद्धये पलाशकुसुमैर्होम तेजस्वि जायते नरः चन्दनागुरुकस्तूरी चन्द्रकुङ्कुमरो जनाः वैश्याय च प्रियत्वाय हुताश्च तिलकीकृताः निर्गुण्डीमूलहोमेन निगडान्मुच्यते नरः निम्बतैलान्विस्तैर्लोणैर्होमशत्रुविनाशनः हरिद्राचूर्णसम्मिश्रैलवणैस्तम्भये जगद मातङ्गिसिद्धविद्यैषा प्रोक्ता ते द्विजसत्तमम् अवतारान्तरं भूयो वर्णयामिनिशामया दीपका प्रीतिचन्द्राड्या द्विधा चेद्रञ्जिता पुनः वधि वह्नि प्रीया मन्दो धूमावत्या गजाक्षरः पिपलादो मुनिश्चन्दो निवृद्धूमावतीश्वरी बीजेन षड् दीर्घजादियुक्तेन करिपल्पयेद् तदो धूमावधिं ध्याये चतुर्निग्रहकारिणीं विवर्णां चञ्चलां दुष्टां दीर्घां च वरम् विमुक्तकुन्तलां सूक्ष्मां विधवां विरलद्वीजां गङ्गध्वजलधारूढां प्रलम्बितपयोधरं सूर्यहस्तां निरुक्षाङ्गधृतहस्ताम्बरान्विधां प्रवृद्धलो मां दुभृश्यं कुडिलां कुटिलेक्षणां क्षुत्पिपाः सार्धितां नित्यं भयदां कलहप्रियं यवं द्विधां तु सञ्चित्य नमः स्वाहा पटन्तकम् बीजं साध्योपरिण्यस्य तस्मिन् स्थाप्य शवं जपेद अवष्टभ्यशवं शत्रूणाम्नाथ प्रजपेन्मनं सोष्णीषकञ्जुको विद्वान् कृष्णे भूदे दिवानिशम् उपवासि श्मशाने वा विपिने शून्यमन्दिरे मन्त्रस्य सिद्ध्यै यदवाध्यायं देवि निरन्तरम् सहस्रा दुर्धुतशत्रुर्ज्वरेण परिगृह्यते पञ्चगव्येण शान्ति स्याज्वरस्य पयसापि वा मन्त्राद्याक्षरमालिख्य शत्रूनाम ततः परं द्वितीयमनुवर्णं च शत्रूनामैव मालिखेद सर्वं मनुदिक्सहस्रजवाचव मृद्धिर्भवेद् दग्ध्वाकङ्कं शानाग्नौ तद्भस्मादायमन्त्रविद विरोधिनाम्नाष्टशतं जप्तमुच्चाटनं रिभोः श्मशानभस्मना कृत्वा शवन्तस्योपरिन्यसेद विरोधि नाम संवृद्धं कृष्णे पक्षे समुच्चरेद महिषी च दद्या चत्रुविपत्करम् एवं संक्षेपदप्रोक्तम् अवतारचतुष्टयं दुर्गाया जगदम्बाया किं पुनः प्रष्टुमिच्छसि इति श्रीबृहनारदीयपुराणे पूर्वभागे बृहदुवाख्याने तृतीयपादे दुर्गामन्त्रचतुष्टयवर्णनं नाम सप्ताशीतितमोऽध्यायः ओ